मुद्गलपुराणं खण्डं 3 महोदरचरितम् अध्यायम् इलवन् महोदरान्तर्धानम् श्रीगणेशाय नमः रविरुवाच कदे मोहासुरे तत्र शान्तरूपे सुरेश्वराः सुरैश्च मुनिभिः महोदरमपूजयन् पूजयित्वा गणेशानं प्रणदा भक्तिसंयुताः उस्ते विशेषेण हर्षयुक्ता सुरर्षयः सुरर्षय ऊचुः अमेय मायामिदविक्रमाय निरञ्जनायाध गणेश्वराय अमायिने मायिकमोहनाय नमो नमस्तेस्तु। महोदराय मनोवचो हीनतया स्थिताय मनोवचो युक्तगजाननाय अयोगसंयोगमयायढुण्ढे नमो नमस्तेस्तु महोदराय विदेहरूपाय च बोधकाय तथा हि सोऽपदभोगकाय सदा सुिन्द्वात्मकदेखगाय नमो नमस्तेस्तु महोदराय गणेशरूपाय सुषुक्तिकाय तथा सुसूक्ष्माय च जागृते ते हरीशब्रह्मादिषु संस्थिताय नमो नमस्तेस्तु महोदराय शुभाशुभाकारधराय भुम्ने शुभाशुभादौ च सुपूजिताय शुभाशुभे कर्मणि सिद्धिदाय नमो नमस्तेस्तु महोदराय कर्त्रेस्तु पात्रे हरणाय कालप्रकाशरूपायच च भानवेदे क्रियास्वरूपाय च शक्तिदाय नमो नमस्तेस्तु महोदराय यमाय चन्द्राय च वायवे वै कुबेररूपाय पुरन्दराय शिवाय वंश्यात्मकनैहृताय नमो नमस्तेस्तु महोदराय अनन्तरूपाय जलेशकाय प्रजापदे रूपधराय पाशिन् दिगीशपालाय दिशामयाय नमो नमस्तेस्तु महोदराय सुरासुराणां च समाय नित्यं सुरासुराकारधराय धात्रे पिशा च गन्धर्वमयाय यक्ष नमो नमस्तेस्तु महोदराय धरास्वरूपाय जलप्रकाश जलस्वरूपाय च तेजसेते वादाय च आकाशमयाय धाम्ने नमो नमस्तेऽस्तु महोदराय अनादिमध्यान्तविहारकाय सदादिमध्यान्तमयाय चित्रम् तत्त्वप्रकाशाय च तत्त्वमूर्ते नमो नमस्तेस्तु महोदराय नराय वर्णाश्रमसंस्थिताय द्विजस्वरूपाय नराधिपाय वैश्याय शूद्राय तथामाय नमो नमस्तेस्तु महोदराय गुरोरधीनाय गृहस्थरूपवनस्थिताय अधपरिव्रजाय वर्णाश्रमयहीनमयाय योगिन् नमो नमस्तेस्तु महोदराय वृक्षादिवीरुतृणसंस्थिताय धराधराकारमयाय देव पशुस्वरूपाय च पक्षिणे ते नमो नमस्तेस्तु महोदराय रसस्वरूपाय रसाधिपाय तथान्नरूपाय च जीवनाय चराचराकारमयाय नाग नमो नमस्तेस्तु महोदराय वराङ्गुशाद्यैश्च सुचिह्नितायो दुरुध्वजायाखु सुवाहनाय त्रिनेत्रधाराय च शूर्पकर्ण नमो नमस्तेऽस्तु महोदराय स्वानन्दलोकाधिपदेवदेव सुशुद्धिबुद्धिप्रभवे परात्मन् सतैकदन्ताय चतुर्भुजाय नमो नमस्तेस्तु महोदराय महोदराय दिसुपूजिताय सुवस्त्रसम्भूषणभूषिताय प्रमोदमोदादिगणस्तुताय नमो नमस्तेस्तु महोदराय सदा मृदाभेदमयेक्षुनीरसमुद्रलीलाकरकञ्जपाणे गणेश हैरम्पजभक्त्रपोष नमो नमस्तेस्तु महोदराय प्रविश्य विश्वोदरमेव भोगविहारिणे विश्वमयाय पूर्ण विकारगिनाय सुबोद्धदाय नमो नमस्तेस्तु महोदराय अल्पोदरादेवमुखाश्च सर्वे स्वस्वप्रभोगे कुशलाश्च तेन तेषु त्वमेवं सुखभोगपरिनमो नमस्तेस्तु महोदराय भानुरुवाच एवं संस् सुभतां तेषां सुरर्षीणां महर्षयः समुत्पन्नो भक्तिरसस्तेन साश्रु नेत्रान् साश्रुनेत्रान् सरोमाञ्चान् रुद्धकण्ठान्विशेषतः तानुवाच स्वयं देवो भक्तान् वै भक्तवत्सलः गणेश उवाच वरान् वृणुद देवेश देवा मुनिगणास्तथा भक्त्या स्तोत्रेण तुष्टोऽहं दास्यामि मनसीप्सितान् गणेशवचनं श्रुत्वा हर्षयुक्ता सुरर्षयः तं प्रणम्य महात्मानं द्विजा ऊचुर्महोदरं देवर्षय ऊचुः यदि तुष्टोऽसि देवेश तदाते ते देहिनो गणनाथत्वं तया तृप्ता स्म साम्प्रतं त्वया शान्तिधरो दुष्टकृदो मोहासुरप्रभो तेन सर्वं जगत्पूर्णं वरैश्चापि प्रपालितम् अधुना तापसंहीना गणपते वयम् त्वं नाथोऽसि जगन्नाथ अनाधानां करोषि तद यवमुक्त्वा गणेशानं प्रणेमुस्ते सुरर्षयः तदेदितानुवाचैव गणेशोऽन्तर्दधे दे द्विजाः देवाश्च मुनयः सर्वे स्वस्वस्थानं ययुस्तदः स्वस्वधर्मरदालोका बभूवु विकदज्ज्वराः एवं मोहासुरं विप्रा शान्तिपधरं प्रभुः चकारगणनाथो वै मोहकीनं जगत्तथा महोदरस्य तस्यैवावतारा विविधा वी स्मृताः चरित्रमखिलं तेषां गदितुं न प्रशक्यते रामसीदवियोगार्थशरणं तं महोदरं ययौ तेन स शान्दो भूत् भजने रतः दक्षिणस्यां दिशि प्रान्ते स्थापितोऽसौ महोदरः देवर्षिभिश्च भो विप्रास्थानं तद्भुवि पप्रथे इदं महोदरस्यैव च जितं मोहशान्तिप्रदम् पूर्णं कथितं वो मया द्विजाः यः पठेतृणुयाद्यश्च तस्मै शान्तिप्रदायकम् भुक्तिमुक्तिप्रदं चैव भविष्यति न संशयः मोहेन मोहिताभिप्रा मां वदन्ति परात्परं धरास्ते ये ज्ञातव्याश्च न ये दद्धितं सर्वं मदीयं सुचरित्रकं गणेशभक्तिसंयुक्तं तस्मात् तं प्रभजाम्यहम् ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्म महापुराणे तृतीये खण्डे महोदरचरिते महोदरान्तर्धानं नाम Om um.